प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः देवाश्चैवोत्तरेणासृशयो भवन् कुर्वत्या तु तदा तत्र मण्डलम् तत्र दक्षिणम् इन्द्रस्थाणुश्च भगवान् धैर्येण प्रत्यवस्थितौ द्रष्टुकामस्य चात्यर्थम् गतया पार्श्वतस्तया दक्षिणम् निःसृतम् पृष्ठतः परिवर्तन्त्या पश्चिमम् निःसृतम् मुखम् गतया चोत्तरम् पार्श्वम् उत्तरम् निःसृतम् मुखम् महेन्द्रस्यापि नेत्राणाम् पृष्ठतः पार्श्वतो ग्रतः रक्तान्तानाम् विशालानाम् सहस्रम् एवं चतुर्मुखस्थाणोः महादेवो भवत्पुरा तथा सहस्रनेत्रश्च बभूवबलसूदनः तथा देवनिकायानाम् महर्षीणां च सर्वशः मुखानि चाभ्यवर्तन्त येन याति ति निपतिता दृष्टिस्तेषाम् महात्मनां सर्वेषामेव भूयिष्ठं ऋते देवम् पितामहम् गच्छन्त्या तु तया सर्वे देवाश्च परमर्शयः कृतमित्येव तत्कार्यम् मे निरेरूप सम्पदा तिलोत्तमायाम् लोकभावनः सर्वान् विसर्जयामास देवान् ऋषिगणांश्च तान् इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने तिलोत्तमा प्रस्थापने दशाधिकद्विशततमोऽध्यायः